अथ विंशम् दशकम् प्रियव्रतस्य प्रियपुत्रभूतादाग्निध्रराजादुदितोहिनाभिः त्वाम् दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यैकृतयज्ञकर्मा अभिष्टुतस्तत्र मुनीश्वरैस्त्वम् राज्ञस्वतुल्यम् सुतमर्थ्यमानः स्वयम् जनिष्येऽहमिति ब्रुवाणस्तिरो दधा बर्हिषि विश्वमूर्ते नाभिप्रियायामथ मेरुदेव्याम् त्वमम् शतो भूवृषभाभिधानः अलोकसामान्यगुणप्रभाव प्रभाविताशेषजनप्रमोदः त्वयि तपोवनम् प्राप्य भवन्निषेवी गतः किलानन्दपदम् पदम् ते इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्वर्ष नास्मिन्न जना भवर्षे यदा तदा त्वम् निजयोगशक्त्या स्ववर्ष मेन द्व्यदधास्तु वर्षम् जितेन्द्रदत्ताम् कमनीम् जयन्ती मथोद्वहन्नात्मरताशयोऽपि अजीजनस्तत्र शतम् तनूजान् येषाम् क्षितीशो भरतोऽग्रजन्मा न वा भवन् योगिवरा न वान्ये त्वपालयन् भारतवर्षखण्डान् सैका त्वशीतिस्तवशेषपुत्रास्तपो बलाद्भूसुरभूयमीयुः स्वयम् गतः पारमहंस्य वृत्तिमधा जडोन्मत्तपिशाचर्यम् परात्मभूतोऽपि परोपदेशम् कुर्वन्भवान् सर्वनिरस्यमानः विकारहीनो विचचारकृत्स्नाम् महीमहीनात्मरसाभिलीनः शयुव्रतम् गोमृगकाकचर्यम् चिरम् चरन्नाप्यपरम् स्वरूपम् दवाहृताङ्गः कुटकाचले त्वम् तापान् ममा पा कुरु इति विंशम्